सप्तसप्तति तमोऽध्यायः वैशम्पायन उवाच समावृतव्रतम् तम् तु विसृष्टम् गुरुणा सदा प्रस्थितम् त्रिदशावासम् देवयान्यब्रवीदिदम् ऋषेरङ्गिरसः पौत्र मृत्तेनाभिजनेन च भ्राजसे विद्यया चैव तपसा च च ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः एवम् ज्ञात्वा विजानीहि यद्ब्रवीमि व्रतस्थे नियमोपेते यथा वर्ताम्यहम् त्वयि स समावृत विद्यो माम् भक्ताम् भजितुमर्हसि गृहाणपाणिम् विधिवन् मम मन्त्र पुरस्कृतम् कचौवाच पूज्यो मान्यश्च भगवान् यथा तव पिता मम तथा त्वमनवत्याङ्गि पूजनीयतरा मम प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः त्वम् भद्रे धर्मतः पूज्य गुरुपुत्री सदा मम यथा मम गुरुर्नित्यम् मान्यः शुक्रः पिता तव देवयानि तथैव त्वम् नैवम् वक्तुमर्हसि देवयानि गुरुपुत्रस्य पुत्रो वै न त्वम् मे पितुः तस्मात् पूज्यश्च मान्यश्च ममापित्वम् द्विजोत्तम असुरेर्हन्यमाने च क्वच पुनः पुनः तदा प्रभृतिया प्रीतिस्ताम् त्वमद्यस्मरस्व मे सौहार्दे चानुरागे च चा वेत्थमे भक्तिमुत्तमाम् न धर्मज्ञ त्यक्तुम् भक्तामनागसम् कचौवाच अनियोज्ये नियोगे माम् न्यूनङ्क्षिशुभव्रते प्रसीदसुभ्रुत्वम् मह्यम् गुरोर्गुरुतराशुभे यत्रोषितम् विशालाक्षि त्वया चन्द्रनिभानने तत्राहमुषितो भत्रे कुक्षौ काव्यस्य भामिनि भगिनि धर्मतो मेत्वं त्वम् मैवम् वोचस् सुखमस्मिषितो भद्रे न मन्युर्विद्यते मम आपृे गम्याम शिवमाशंस मे पथि अवरोधेन धर्म से स्मर्तव्यों कथा अथिता निराधय गुर्म देवयाुवाच यदि माम धर्मकामार्धे प्रत्याख्यासी याचिता ततक्च ने विद्या सिद्धिमेशा कचौवाच गुरुपुत्रीति कृत्वाहम् प्रत्याचक्षेण दोषतः गुरुणा चाननुज्ञातः काममेवम् शपस्व देवयानि यथा शप्तो नार्होस्मि शापस्य कामतोऽद्य न कामो न तथा भविष्यति ऋषिपुत्रो न ते कश्चिच्चातुपाणिम् ग्रहीष्यति फलिष्यति न विद्या यत्त्वम् मामार्थ तत्तथा अध्यापयिष्यामि तुयम् तस्य विद्या वैशंपायनववाच एवमुक्त्वा द्विजश्रेष्ठो देवयानीम् कचस्तदा त्रिदशेषालयम् शीघ्रम् जगामद्विजसत्तमह तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः बृहस्पतिम् सभाज्येदम् कचम् वचनमब्रुवन् देवा ऊचुः यत्त्वया स्मद्धितम् भविष्यसि इति श्री महाभारते, महाभार आदिपर्वि सवर्व युप्यातमोध्याय